भूतनानां भूतानां ये च लोकविनायकाः एवं गणसहस्राणि चरन्ति पृथिवीमिमां यक्षाः पुण्यजनानां पूर्णभद्राश्च ये स्मृताः यक्षाणां राक्षसानां च कौलस्यागस्त ना यक्षा यृष्टया पिबंदीह नृणमासेवेशन पिशाच पिरीपीडन सर्वक्षण सपन्ना साम मैच्चा दीत भास्वरा बलवन्तश्च ईश्वरः कामरूपिणः अनाभिभाव्या विक्रान्तास्सर्वलोकनमस्कृताः सूक्ष्माश्चौजस्विनो मेध्या वरदा याज्ञिकाश्च वै देवानां लक्षणं ह्येतदसुराणां तथैव च हीना देवैस्त्रिभिः पादैर्गन्धर्वाप्सरसस्मृताः गन्धर्वेभ्यस्त्रिभिपादैर्हीना गुह्यकराक्षसाः ऐश्वर्यहीना रक्षोभ्यः पिशा चास्त्रिगुणां पुनः ये वन्धनेन रूपेण आयुषा च बलेन च धर्मैश्वर्येण बुद्ध्या च तपश्रुतपराक्रमैः ही। देवासुरेभ्यो हीयन्ते स्त्रीं स्त्रीन् पादान् परस्परं गन्धर्वाद्यापिशाचान्ताश्च दस्रो देवयो नयः अधशृणुद भद्रं वः प्रजा क्रोध वशान्वयाः क्रोधा ह्य कन्यकाजज्ञे द्वादशैवात्मसम्भवाः ताभया कुलकस्यासन्नामदो मे मृगे च मृगमन्ता च हरिभद्रा द्विरावती भूता च कपिशादंष्ट्रा वृषा तिर्या तथैव चैव सुरसा जा चेदि विश्रुता मृगास्तु हरिकाः मृगश्चान्ये शशास्तथा न्यङ्गवः शरभाये च रुरभक् पृषदाश्च ये ऋक्षाश्च मृगमन्दाया गवयाश्चापरे तथा महिषोष्ट्रवराहश्च खड्गागौरमुखास्तथा हर्यास्तु हरयः पुत्रा गोलाङ्गुलास्तरक्षवः वानरा किन्नराश्चैव पुरुषास्तथा सिंहा व्याघ्राश्च नीलाश्च द्विपिह्नक्रोधिताधराः सर्पाश्चा जगराग्राः परे मण्डूका नकुलाश्चैव वल्कका वनगोचराः हंसं तु प्रथमं जज्ञे पुलहस्य शुभा रणचन्द्रं शतमुखं दरीमुखमथापि च हरिदं हरिवर्माणं भीषणं शुभलक्षणं प्रधिदमधिदं चैव हरिणं लाङ्गलिं तथा श्वेताया जनिरेवीरा दशवानरपुङ्गवाहा ऊर्ध्वदृष्टिकृत हारसुव्रतो विनदो बुधः हारिजातः हरिदासो गुणाकरः क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते तेषां पुत्राश्च पौत्राश्च बलवन्तः सुदुःसहा अशख्या समरे जेदुं देवदानवमानवैः राक्षसै सुभुजङ्गमैः नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते असङ्गगतय सर्वे पृथिव्यां व्योम्नि चैव हि पादाले च जले वा यौह्यविनाशिन येवते दशकोटिसहस्राणि दशार्बुदशतानि च महापद्मसहस्राणि महापद्मशतानि च दशार्बुदानिकोडीनां सहस्राणां शतं शतं नियुतानां सहस्राणि निखर्वाणां तथैव च दशार्बुदानिकोडीनां षष्टिकोटिस्तथैव च च लक्ष्यं कोटिशतमधापरं दशपद्मानि जान्यानि महापद्मानि वै संख्यातानि कुलीनानां वानराणां तरस्विनां सर्वे तेजस्विनशूराकामरूपा महाबलाः दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहितग्नयः यष्टारसर्वयज्ञानां सहस्रशतदक्षिणाः मुकुडैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः वेदवेदाङ्गविद्वांसो नीतिशास्त्रविचक्षणाः अस्त्राणां मोचने चापि तथा संहारकर्मणि दिव्यमं त्रपुरस्कारा दिव्यमन्त्रपुरस्कृताः समर्था बलिनशूरा सर्वशास्त्रप्रहारिणः दिव्यरूपधरा सौम्या जरामरणवर्जिताः कुलानां च सहस्राणि दश तेषां महात्मनां चतुर्षु मेरुपार्श्वेषु हेमकूडे हिमाक्वये नीलेष्वेदनगे चैव निषधे गन्धमादने द्वीपेषु सप्तसु तथा या गुहातेजपर्वताः निलयास्तेषु ते, ते प्रोक्ता विश्वकर्मकृतास्वयम् पुरैश्च विविधाकारैः प्राकारैश्च विभूषिताः सर्वर्तुरमणीयास्तेह्युद्यानानि च सर्वशः गृहभूमिषु शय्यासु पुष्पगन्धसुखोदिताः आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा सर्वरत्नसमकीर्णा मनसीं सिद्धिमास्थिताः वानरा वानरीभिस्ते दिव्याभरणभूषिताः पिबन्दो मधुमाध्वीकं सुधा भक्षानुमिश्रितम् क्रिया मया समुदिता दिवि देवगणा इव देवगन्धर्वमुख्यानां पुत्रास्ते वै सुखे रताः धार्मिकाश्च वरोत्सिक्ता युद्धशैण्ठा महाबलाः अक्षुद्रा सर्वसत्त्वानां देवद्विजपरायणाः अम्लानि न सत्यसन्धानार्थे बहुजल्पिनः मिदभाषाः क्षमावन्दो ह्याचारपरिनिष्ठिताः वनालङ्कारभूतो सृष्टा वै स्वयं भक्त्या निमित्तं लोकेषु रामस्यार्थे गुणाकरः कपीनावय सर्वप विनाश नु यमीयसुखा वह तदव कीर्तयिषा तृणुध्वद ऊर्ध्वृष्टेश्च तनयो व्याघ्रो नामाभवद्भली व्याक्रस्य भ्रादरः पञ्चस्वसारश्च तधास्य वै तांस्तथा स्वानुरूपेषु वानरेषु कृतात्मसु प्रतिपादिता भ्रात्रा भादृदारास्तथैव व्याक्रस्य तु सुधो जज्ञे शरभो लोकविश्रुतः शरभस्यापि विद्वांसो भ्रातरो वीर्यसम्मताः राजानो वानराणाञ्च सर्वधर्मप्रतिष्ठिताः शरभस्य सुदो धीमांशु नाम महाबलः तस्यापि पुत्रो बलवान्व्यक्रीजरसम्भवः सम्मदः सर्वशूराणां चक्रवर्तिदुरास्ततः वृक्षो नाम महातेजास्सर्ववानरयूधपः इन्दा सदैव शत्रूणां सर्वास्त्रविधिपारगः तस्मै तान्दृग्विशिष्टाय सुदां गुणगणैर्युधां प्रजापदिरुपादाय कन्यां हेमविभूषितां विरजौ विरजां तस्मै प्रत्यपादयदं जसा पाणिं जग्राहतस्यास्तु वृक्षो वानर यूधपः दर्शनीयानवद्याङ्गी सा कन्या चारुहासिनी चकमेतां महेन्द्रस्तु दृष्ट्वा वै जादो वाली विक्रमपौरुषः विरजायां महेन्द्रेण महेन्द्र समविक्रमः तथा स्वां शोभानुना वै यथाविधि रहस्योत्पादितः पुत्रसुग्रीवो हरियोधपः वृक्षो दृष्ट्वादुतनयौ बलरूपश्रियायुतौ हर्षचक्रेषु विपुलं सर्ववानरयोधपः सोऽभ्यषिञ्चत्सुधं ज्येष्ठं वालिनं हेममालिनम् अभिषिक्तो वाली सुग्रीवागदो बलि काम सार्य दिव्य देश यहाँ सुधारा भार् तहात्म तारा नाम महाप्राजा ताराधिप निभानना सुशुवेशापि तनयमङ्गदम् कनकाङ्गदम् अङ्गदस्यापि तनयो जादो भीमपराक्रमः मैन्दस्य चेष्टकन्यायां ध्रुवो नाम महायशाः सुग्रीवस्य रुमा भार्या पनसस्य सुधाशुभा तस्यापि च सुधादास्त्रयः परमकीर्तयः तेषा दारांस्तथा साध्य सुस्वरूपान् बली ततः वालिनः पार्श्वतो तिष्ठत् सुग्रीवस्सह वानरैः बहून् वर्षगणानग्रो भ्रात्रा सह यथा मरः केसरी कुञ्जरस्याध सुतां भार्यामविन्ददा कञ्चना नामसुभागा गत्वा पुंसवने शुचिः पर्युपास्ते च दां वायोर्यौवना देवगर्विदां तस्यां जातस्तु हनुमान् वायुना जगदायुना येह्यन्ये केसरिसुधा विख्यादा दिवि चेह ज्येष्ठस्तु हनुमांस्तेषां मदिमांस्तु तदस्मृतः श्रुतिमान् केतुमांश्चैव मदिमान् धृतिमानपि हनुमद्भ्रातरो एवैते तारैः सुप्रतिष्ठताः स्वानरूपैसुधाः पित्रा पुत्रपौत्रसमन्विताः ब्रह्मचारीजहनुमान्नासौदारैश्च योजितः सर्वलोकानपिरणे यो योद्धुं च समुत्सहेत जवे जवे जविदेवैनदेय इवापरः अग्निपुत्रश्च बलवान्नलः दुर्जयः क्षेत्रे कनकबिन्दोस्तु जादौ वानरपुङ्गवः वा तदा त्वन्ये महाभागा बलवन्तश्च वानराः सप्रधानास्तु विज्ञेया हरियूधपयुधपाः योधब तारश्च कुसुमश्चैव पनसो गन्धमादनः रूपश्रीर्विभवश्चैव गवयो विकटःसरः सुषेणस्तुधनुश्चैव सुबन्धुश्चुन्तुभिः विकचकपिलो रौद्रः परियात्रप्रभञ्चनः कुञ्चरशरभोदं श्रीकालमूर्तिर्महासुकः नन्दकन्दरसेनश्च नलो वारुणिरेव चिरभकरवस्ताम्रश्चित्रयो धीरधीतरः भीमशतबलिश्चैव कालचक्रो नलो नलः यक्षास्यो गहनश्चैव धूम्रः पञ्चरथस्तथा पारिजादो महादीप्तसुतपाबलसागरः श्रुतायुर्विजयाकाङ्क्षी गुरुसेवी यथार्थकः धर्मचेदासुहोत्रश्च शालिहोत्रोऽधसर्पगः पुण्ड्रश्चावरगात्रश्च चारुरूपश्च शत्रुजिद विकटकवडोमैन्दो बिन्दुकारोऽ सुरान्धकः मन्त्री भीमरथसङ्गो विभ्रान्तश्चारुहासवान् क्षणक्षणमदाहारी दृढभक्तिप्रमर्दनः जा झिप मुकुटो बलबंधुसमिकर्तिशुभ क्षेत्रो बिंदुकुस्सह्रपादेहरिनेश ज्यूमुदोधबलाहकनामा चुबाश गुणाकुकृदी कुंडो कृतकृत्यशुभेक्षणः द्विविधः कुमुदो भासः सुमुख सुरुर्वृकः विकटकवकश्चैव जवसेनो वृषाकृतिः गवाक्षो नरदेवश्च सुके दुर्विमलाननः सह स्वारशुभक्षेत्रः पुष्पध्वंसो विलोहितः नवचन्द्रो बहु गुणः सप्तहोत्रो मरीचिमान् नेत्रवान् इत्येते हरह्यक्रान्ता प्राधान्येन यथार्थतः बहु त्वान्नामधेयानां न ना ोटिदशब्ठिम सर्वरसैन्य सप्त स्थित स्य किकि मश्रीदोवाली श्री छतुतापन रे निगूवा वामेन भुजेनस महाबल विष्टभ्य पार्श्वे संस्थाप्य रावणं ध्यानमस्थितः मौहूर्तिकीं गतिं गत्वा चतुःपरशर्वानुपस्पृशन् समुद्रं दक्षिणं पूर्वपश्चिमं च तथोत्तरं मनो वायुगतिर्भूत्वा वाली व्यपगतक्रमः स निर्दित्यमहावीर्यो रावणं लोकरावणं वाली बाहुविनिर्मुक्तं विह्वलं नष्टचेतसम् वृक्षमूलप्रदेशे च स्थापयित्वा बलोत्कटः सिच्याम्भसा सुषिते न ह्यापादतलमस्तकाद स च तं लब्धः संज्ञं च कृत्वा विस्मयमस्थितः उवाचरणचण्डं तं राक्षसेंद्रं कपीश्वरः भो भो राक्षसाजेन्द्र महेन्द्रसमविक्रम असंख्येयं बलं जित्वा यमं ससचिवं रणे वरुणं च कुबेरं च शशिनं भस्करं तथा मरुद्गणं तथा रुद्रानादित्यानश्विनौवसून् दैदेयान् कालकेयांश्च दानवान् सुमहाबलान् सिद्धांस्तथैव गन्धर्वान् यक्ष रक्षो भुजङ्गमान् पक्षिणां प्रवरांश्चैव ग्रहनक्षत्रतरकाः तथा भूतभिशाचांश्च विवृद्धबलदर्पितान् मानुषाणां नृपांश्चैव स्था शतशोधसहस्रशः कथमी दृग्गुणो भूत्वा मनो वायुसमो जवे शक्तोऽसि चालनि मेघो कृतान्त इव सर्वो वीरान विद्रव्योलोक वीरान् पर बलैरशनी कलैश्च पर्वता सागरा सप्त सप्त महारथः। निर्विकारो जयप्रेप्सुस्मयमानो स्मयमानो बलाद्बली दुर्बलेन मया क्रान्तो वानरेण विशेषतः किमर्थमीदृशं शब्दो बलवानपि दुर्जयः प्रब्रूहि हेधुनाकेन राक्षस राक्षसपुङ्गवः अभयं दे मया दत्तं विश्वस्थो भवतो न भीः वालिन श्रुत्वा दशग्रीवः प्रतापवान् उवाच भयसंविघ्नः सान्त्व पूर्वमिदं वचः असंशयं जिदा सर्वे मया देवासुरारणे एवं विधस्तु बलवान्न मया सादिध क्वजिद तदिच्छामि त्वया सौहृदं भयवर्जितं मत्तो भवेन्न देवीरकदाचिद्वैरणाजिरम् एवमुक्तो ब्रवीद्वाली भवत्येतद्वचस्तव समये स्थापयित्वा दुरावणो वालिनं पुरा जगामलङ्कां सगणः प्रहृष्टेनान्तरात्मना वाली विजित्य बलवान् पुष्करे राक्षसेश्वरम् अजहार बहून् यज्ञानपानसमावृतान् दक्षिणाभिप्रवृद्धाभिशतशोधसहस्रशः अग्निष्टोमाश्वमेधांश्च राजसूयान् नृमेधकान् सर्वमेधानपि बहून् सर्वदानसमन्वितान् तर्पयित्वाध देवांश्च देवेन्द्रं बहुभिस्तथा ब्रह्माण्डं दर्शयित्वा च भूत्वाग्निं बहुवार्षिकं सुग्रीवेण सखभ्रात्रा सुखी भूत्वा यवीयसा राज्यम च पाल्वा सकनामकु भय ब्रह्मण्यो ब्रह्म परमो धर्मसेपर बहून्वर्ष गण मे सर्वशास्त्र यगौ यजेशु नारद न यत्नहवने दाने ज्यवेनापि पराक्रमे तुल्योऽस्ति त्रिषु लोकेषु वालिनो हेममालिनः शाम्षपायन उवाच अहो महाप्रभावस्तु महेन्द्रतनयो बली वाली यत्नसहस्राणां यज्वा परमदुर्जयः चक्रवर्ती महाप्राज्ञे वालीच च कथितस्त्वया मार्तण्डस्य तु नो कथं मार्तण्डदा स्मृता निरुक्तमस्य तु विभो याधातेन सुव्रता सुद उवाच श्रुत्यमानेषु भूतेषु प्रजापतिरथ स्वयं त्रैलोक्याद्यत्परं ते जस्तदा हृत्यादिदेर्धृ प्रवेशायामास तदा योगे न महदा वृतः पूर्वमण्डं तु भगवानस्याश्चक्रे तथोदरे तत्रावर्ततगर्भो वै अण्डस्याभ्यन्तरे बली वर्धमानोऽधिमात्रं वैदेवा देव निस्तेजसो भवन् सर्वतो निर्मिदं ज्ञात्वा गर्भं ते धृततेजसः ऊजु प्रजापदिम्भीता कथं नो भविदा त्विदं बलं तेजोऽस्य भविदा निर्मितस्याधिकं विभो नूनं कथं भविष्यामो नूनं नष्टा शाश्वत सर्वभूतानि यानि चराणि च तानि दग्धानि न चिराद्भविष्यन्ति न संशयः यदेडे स्थापितं तेजो बलं च तत्संहरविचिन्त्येह यन्नश्रेयस्करं भवेत् श्रुति तेजःप्रभावश्च दक्षते सर्वतोऽञ्जसा सचिन्तयित्वा भगवान् प्रजापतिरथाक्षिपद बलं चाण्डे चकाराध तदस्त्वण्डान्तरे शिशुः यदण्डं तद्बलं प्राहुर्यत्तेजः स शिशुर्मदः तत्तूदराद्विनिष्क्रान्तं मृदपिण्डोपमंसतु प्रजापतिस्ततो दृष्ट्वा तदण्डं वैद्विधा करोद। सकले द्वे समास्थाय स एकस्मिन्नपश्यत गर्भं दुर्बलभावेन युक्तं तेजोमयं सकृद तत् समुद्यम्य चोद्धाया दिन्युत्सङ्गे निवेद्य च उवाचादित्यभावच्च यस्मा वै स्मृतः तेन मार्तण्ड इति वै कथ्यते सविदा बुधैः तेजश्चैवाधिकं तस्मै निर्ममे प्रपितामहः ये ते अण्डकपाले द्वे तद्बलं परमं मदं नाभौ पृथग्व्यवस्थाप्य इरावत्यै ददौ प्रभुः उदरे प्रवेशयामास तस्याः जननेच्छया इरावत्यास्तथा जाताश्चत्वारो लोकसम्मताः देवोपवाह्यराजानोऽस्ति नो बलवत्तराः ऐरावणोऽधकुमुदौ ह्यञ्जनो वामनस्तथा उत्तरत्र च वो भूयस्तेषां वक्ष्यामि विस्तरम् योऽयं प्रधानो लोकेस्मिन्नधिकेनामि तौ जसा भगवान् सविदा साक्षात् प्रभा स यदि रश्मिभिः निरालोकं जगदिदं लोकालोकान्तरं द्विजाः बाह्यं तमोवृदं सर्वं तत्प्रमाणमशेषतः यदुक्तं मया सर्वं यथावद्विजसत्तमाः श्रुतं भगवतो व्यासात् पाराश्चर्यान्महात्मनः सनत्कुमारेण पुरा प्रोक्तं वै वायुना पुरा विमृश्य बहुधा तत्तु श्रुत्वा पुण्यं सर्वार्थसाधकम् अभयो विचरत्येव जात्यन्तरशतं गतः मार्तण्डजननं ह्ये दद्गेहे यस्य व्यवस्थितं कथ्यदेवा कथा यस्य नतं विद्धि समानकं न चाकाले म्रियन्ते स्य बाला अपि कदाचन वृक्षस्य रक्षा, वानरस्य बलीयसह, प्रजापदि सकाशात्सा। जज्ञे शूरपरिग्रहम् ऋक्षराजं महाप्राज्ञम् जाम्बवन्तं यशस्विनम् तस्य जाम्बवती नाम सुदा व्याध्रियामजायदा वासुदेवस्य सा दत्तापित्रा राजीवलोचना तधान्ये वृक्षराजस्य सुधा महाबलाः जयन्तोऽथ च सर्वज्ञो मृगराट् संकृतिर्जयः मार्जारो बलिबाहुश्च लक्षणज्ञश्रुतार्थकृतभोजो राक्षसजिच्चैव पिशाच वनगोचरौ शरभशलभश्चैव व्याघ्रसिंहस्तथैव तेषां पुत्राश्च पौत्राश्च शदशोध सहस्रशः ऋक्षाणामेवतु गणो देवदानव पूजितः मार्जारस्यदु मार्जारा मार्जार वाद्याः पुत्रा महाबलाः बभूवुशतसाहस्रा सर्वे वीर्यसमन्विताः आचार्याश्वापदादीनां शरभाणां महौ जसः स्वातकापृषदादीनां मूषिकाणां च पक्षिणां लाखवेप्लवने युक्ता सर्वसत्वावसाधकाः ग्रामेषु वनचण्डेषु कोडरेषु गुहास्तु च गृहेषु गृहगर्भेषु ग्रिख गृहवासावलम्बिनः नानागदिषु संसारा कुशला तथा वनचरा स्वभावस्थि रात्रौ दिवाचरा सन्ध्यासु चर नीलजीमोदर्णश कपिला केकरारुणा कृष्णवर्णस्था पिंग भक्तिचिस्तरे नखदंष्ट्रायुधा खोरा मयूरसमभाषणाः सरमायासुधौ जादौ शूरौ परमदुःसहौ श्यामश्च शबलश्चैव यमस्यानुचरौ स्मृतौ तयोः पुत्रा दुराधर्षाः पुत्रपौत्रसमन्विताः श्रुतिमाप्तः पुनर्वंशसरमेयेषु सर्वदा साम्प्रतं तत् सजातीया घोररूपा महाबलाः विषाधयन्ति च नरान् सर्वजातिसमन्वितान् ग्रामासक्तो निवासस्तु तेषामेव भवत्युद य इदं शृणुयाज्जन्मदं स्ीणां श्रावयेत्तु यः दंष्ट्रिभ्यो न भयं तस्य न चोरेभ्यो न वाण्यदः तात्कालमरणं चैव भवतीति विनिर्णयः न च बन्धनमाप्नोति न वियोनिं न संकरं वानप्रस्थाश्रितं मुनिसेवितं सम्पन्नश्चैव दिव्येन धनेन च बलेन च शवतेन च ज्ञानेन जायते देवयो निशू ट्वीपिनः शरभा सिंहाव्याघ्रा नीलाश्च शल्यकाः वृक्षा मार्जारलोहासा वनरा मवस्तधा येदा एक वानरा जातय यणेदा सर्वेशी राज प्रतापवान।